अथ विंशत्यधिकशततमः सर्गः प्रतिप्रयाते काकुत्स्थे महेन्द्रः पाकशासनः अब्रवीत् परमप्रीतो राघवम् प्राञ्जलिम् स्थितम् अमोघम् दर्शनम् राम नरर्षभा प्रीतियुक्ता स्मतेन त्वम् एवमुक्तो महेन्द्रेण प्रसन्नेन महात्मना सुप्रसन्नमनाहृष्टो वचनम् प्राहराघवः यदि प्रीतिः समुत्पन्ना मयि ते विबुधेश्वर वक्ष्यामि कुरु मे सत्यम् वचनम् वदताम् वरा मम हेतोः पराक्रान्ता ये गतायमसाधनम् ते सर्वे जीवितम् प्राप्य समुत्तिष्ठन्तु वानराः मत्कृते विप्रयुक्ता पुत्रैर्दारैश्च वानराः तान् प्रीतमनसः सर्वान् द्रष्टुमिच्छामि मानदा विक्रान्ताश्चापि शूराश्च न मृत्युम् गणयन्ति च कृतयत्राविपन्नाश्च जीवयैतान् पुरन्दरा मत्प्रियेष्वभिरक्ताश्च न मृत्युम् गणयन्ति ये त्वत्प्रसादात् वृणे नीरुजो निर्वृणांश्चैव सम्पन्न बलपौरुषान् गोलाङ्गूलांस्तथर्क्षांश्च द्रष्टुमिच्छामि मानदा अकाले चापि पुष्पाणि मूलानि च फलानि च नद्यश्च विमलास्तत्र तिष्ठेयुर्यत्र वानराः श्रुत्वा तु वचनम् तस्य राघवस्य महात्मनः महेन्द्रः प्रत्युवाचेदम् वचनम् प्रीतिसंयुतम् महानयम् वरस्तातयस्त्वयोक्तो रघूत्तमा गर्मयानोक्तपूर्वम् च तस्मादेतद्भविष्यति समुत्तिष्ठन्तु ते सर्वे हता ये युधिराक्षसैः वृक्षाश्च सह गोपुच्छैर्निकृत्ताननबाहवः नीरुजो निर्व्रणाश्चैव सम्पन्नबलपौरुषाः समुत्थास्यन्ति हरयः सुप्ता निद्राक्षये यथा सुहृद्भिर्बान्धवैश्चैव ज्ञातिभिस्वजनेन सर्वे एव समेष्यन्ति संयुक्ताः परया अकाले पुष्पशबलाः फलवन्तश्च पादपाः भविष्यन्ति महे श्वासनद्यश्च सलिलायुताः सव्रणैः प्रथमम् गात्रैरिदानीम् निर्व्रणैः समैः ततः समुत्थिताः सर्वे सुप्त्वे महरिसत्तमाः सर्वे किम् विस्मिताः काकुत्स्थम् परिपूर्णार्थम् दृष्ट्वा सर्वे सुरोत्तमाः अब्रुवन् परमप्रीतास्तुत्वा रामम् स लक्ष्मणम् गच्छायोऽध्यामितो राजन् विसर्जय च वानरान् मैथिलीम् सान्त्वयस्वैनामनुरक्ताम् यशस्विनीम् भ्रातरम् भरतम् पश्य त्वच्छोकाद्व्रतचारिणम् शत्रुघ्नम् च महात्मानम् मातॄः सर्वाः परम् तप अभिषेचय चात्मानम् पौरान् गत्वा प्रहर्षय एवमुक्त्वा सहस्राक्षो रामम् सौमित्रिणा सह विमानैः सूर्यसङ्काशैर्ययौ हृष्टः सुरैः सह अभिवाद्य च काकुत्स्थः लक्ष्मणन सह भ्रावासम्ञापय तदा ततस्त सा लक्ष्मण राम पालिता महाचमोरहृष यशस्वनी श्रिया ज्वल्ती विरराज सर्वो निशा प्रणीते बहिशीतरश्नाशे श्रीमद्राणे वाक आदि युद्धकाण्डे विंशत्यधिकशततमः